नारायणसुप्तं श्रगुरुभ्यो नमः हरिः ॐ सहना भवतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विषावहैः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ सहस्रशीर्षं देवं विश्वाख्यं विश्वशम्भुवं विश्वं नारायणं देवमक्षरं परमं पदं विश्वतः परमानित्यं विश्वं नारायणगम्भरिम् विश्वमेवेदं पुरुषस्तद्विपं विश्वमुपजीवति पति विश्वस्यात्मे स्वर्गं शाश्वतगं तिवमच्युतं नारायणं महागेयं विश्वात्मानं परायणं नारायणपरो ज्योतिरात्मा नारायणः पर नारायणपरब्रह्मतत्त्वं नारायणः परः नारायणपरो ध्या ध्यानं नारायणः परो यञ्चिज्जगत्सर्वं दृश्यते ये श्रूयते पिबा अन्तर्बहिश्चतशर्वं व्याप्य नारायणशतौ अनन्तमव्ययं कविगं समुद्रेऽन्तं विश्वशम्भुवम् पद्मकोश्रतीकाशगम हृदय चाप्यधोम मुखम अघोने चापितभ्यापरितिषति ज्वालमुम भाति विश्वनम मत सतगं शिलाम भक्कोशि ते सुर्गम सूक्ष्म तस्व प्रति तस्य मध्ये महानाग्निर्विश्वार्चिविश्वतोमुख सोऽग्रभुव्य भजन्ति कविः तिर्यगुरुध्वः साई रश्मयस्तस्य सन्ततां सन्तापयति स्वं देहमापादमन्तलमस्तकः तस्य मध्ये बन्ध्यशिखा अणिजो ऊर्ध्वा व्यवस्थितः निलतो जदमध्यस्थाद्विद्युल्लेखेव वा स्वरा निवारसूकवद्वण्डिपीता वा आश्वत्यनुपमां तस्या आशिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्म सशिवः स हरिसेन्द्रोऽक्षर परमस्वरा सत्यं परब्रह्मपुरुषं पृष्ठपिङ्गलम् ऊर्ध्वरे तम्बिरूपाक्षम्बे स्वरूपाय वैभवो नमः ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ